श्रीरङ्गनाथपादुकासहस्रं पद्धति ट्वेण्टि टु काञ्चनपद्धतिः अनुष्टु कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियं पदार्हां पादुकां शौरे पद एव निवेशिताम् वसन्तमालिका मधुजित्तनुकान्तितस्कराणां जलदानामभयं विधादु कामां चपलेव तदङ्क्रिमाश्रयन्ती भवती काञ्चनवादुगे विभाति निकषीकृतरम्यकृष्णरत्ना भवती काञ्चनसम्पदं व्यनक्रि परिपुष्यदि पादुके यदीक्षा सहसान समलोष्ट समलोष्टकाञ्चनत्वम् सुरभिर्निगमैः समग्रकामा कनकोत्कर्षवदीपदावनित्वं दिशसि प्रतिपन्नमाधवश्रीरनिशो निद्रमशोकवैभवं नः सदि वर्णगुणे सुवर्णजादेर्जगदिख्यातमसौरभादवर्णं श्रुति भवदी स्वहेम्ना भवती शौरिपदावनि व्युदास्तद दा। प्रतिपन्नमयूरकण्ठदाम्ना परिशुद्धेन पदावनिस्वकेन कमलास्तनभूषणोचिदं तद्भवति रत्नमलङ्करो दिहेम्ना वसन्ततिलकं कान्त्या परं पुरुषमाप्रणखात्सुवर्णं कर्तुं क्षमा त्वमसि काञ्चनपादरक्षे अन्यादृश्यम् ृशिया विनतस्य दूराधारग्वधस्तभकसम्पदमिन्दुमौलेः चन्द्राकृधिकथमकल्प यथास्तदानीं वैमानिकप्रणयिनी वदनाम्बुजानां विक्रान्तिकालविततेन निजेन बालातपं बलिविमर्दनपादुकेत्वं लेभे सदा प्रभृति नूनमियं भवत्या कान्द्या कवेरतनया कनकापगात्वं यावन्मुकुन्दपदभेमपदावनित्वं पुण्यं विभूषितवती पुलिनं तदीयम् चित्रं सरोजनिलया सहितस्य शौरेर्वासोचितानि शरणावनि संविधित्सोः सद्यो विकासमुपयान्ति समाधिभाजां चन्द्रातपेन तव मानसपङ्गजानि त्वय्येव पादमधिरोप्य नवं प्रवाहम् धे पदवनि निशाइद प्रवृत्ते आत्मीयकाचन ऋचा भवती विधत्ते हे मरविंदमि वह म सिंधु मलि विहरदिपुलिने शुत्सखे रंगनाथे कनकसरिदियं ते पादुके हेमधाम्ना वहदि सलिलकेलीस्रस्तचोलावरोधस्तनकलशहरिद्रापङ्गपिङ्गामवस्था सुरभिनिगमगंधा सौम्यपद्माकरस्था कनककमलिनीव प्रेक्ष्यसे पादुके त्वं भ्रमर इव सदा त्वां प्राप्तनानाविकारशतमखमणिनीलसेव शार्ङ्गधन्वा कनकरुचिरवर्णां पादुके सह्यसिन्धुश्रियमिव महनीयाम् सिन्धुराजस्य पत्नी स्वयमिघ सविधस्ता सौम्यजामादृयोक्तामुपचरदिरसेन त्वामपत्याभिमानात् अनुकलमुपजीव्या दृश्यसे निर्जराणां त्रिपुरमथनमौलौ शेखरत्वं दधासि प्रतिपदमधिगम्यप्राप्तशृङ्गासि शौर्येस्तदपि चरणरक्षे पूर्णचन्द्राकृतिस्त्वं कनकमपि तृणं मन्वदे विदरागास्तृणपि कनकं ते जानदे त्वत्प्रकाशैः मधुरिपुपदरक्षे यत्त्वदर्थोपनीतान् परिणमयसि हैमान् देवि दूर्वाङ्गुरादीन् पृथ्वी विशुद्धिमधिगच्छतिज्वलनसङ्गमात्काञ्चनं विदन्ति जगन्ति तन्न खलु तद्विपर्यस्यति कथं कमललोचने साक्षिणि त्वयैव परिशुद्धता हुदभुजो विजाघट्यते मन्दाक्रान्ता तारासङ्गप्रथिदविभवां चारुजाम्बूनदाभाम् मारूधस्त्रिदशमहितां पादुके रङ्गनाथः सञ्चारिण्यां सुरशिखरिणस्तस्तुषा मेखलायां मत्तद्विरदपदिना साम्यकक्ष्यां समीक्ष्या हरिणी काव्याख्यादा, कनकुचिरा कव्याख्या शनोचिद्रुदगुरबुस्व्रुवाजाधि विहित विभव निष्णो पदे त्वमसि महदि विश्वेशा, न शुभाग्रहमंडली आर्या प्रज्वलितपञ्च हेदिर्हिरण्मयीं त्वां हिरण्यविलयार्हः आवहदु जादवेदाश्रियमिव नःपादुके नित्यम् इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्गडनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे काञ्चनपद्धतिर्द्वाविंशी ॐ